महास्वनैर्दुन्दुभिनादितैश्च बभूव तत्सङ्कुलमन्तरिक्षम् विमानसम्बाधमभूत् समन्तात् सवेणुवीणापणवानुनादं ततस्तु ते राजगणाः क्रमेण कृष्णानिमित्तं कृतविक्रमाश्च सकर्णदुर्योधनशाल्य द्रौणाय निक्राथ सुनीथवक्राः कलिङ्गवङ्गाधिपपाण्ड्यपौण्ड्रा विदेहराजो यवनाधिपश्च अन्ये च नानानृपपुत्रपौत्रा राष्ट्राधिपङ्कजपत्रनेत्राः किरीटहाराङ्गदचक्रवालैर्विभूषिताङ्गाः पृथुबाहुवस्ते अनुक्रमम् विक्रमसत्त्वयुक्ता बलेन वीर्येण च नर्दमानाः तत्कार्मुकम् संहनोपपन्नम् सज्यम् नशे शे कुर्मनसापि कर्तुं ते विक्रमन्तः स्फुरता दृढेन विक्षिप्यमाणा धनुषा नरेन्द्राः विचेष्टमाना धरणीतलस्था यथा बलं शैक्ष्यगुणक्रमाश्च गतौ जसः स्रस्तकिरीटहारा विनिश्वसन्तः शमयाम्बभूवुः हाहाकृतं तद्धनुषा दृढेन विस्रस्तहाराङ्गदचक्रवालं कृष्णानिमित्तं विनिवृत्तकामं राज्ञां तदा मण्डलमार्तमासीत्